श्रीहरये नमः अथ पञ्चविंशोऽध्याय श्रीशुक उवाच तस्य मूलदेशे त्रिशद्योजन सहस्रान्तरास्ते या वै कला भगवतस्तामसे सामाज्ञातान्तये द्रष्ट्रो तृष्ययो सङ्कर्षणौ अहमित्यभिमानलक्षणौ यं सङ्कर्षणमित्याचक्षते <laughs> यस्येदं श्रितिमण्डलं भगवतो अनन्तमूर्ते सहस्रशिरसः एकस्मिन् एव शीर्षणे त्रियमाणं लक्ष्यते यस्य ह वायितं कालेन उप सञ्जिकीर्षतो मर्षविरचितरुचिरः भ्रमद्भ्रुवो अन्तरेण साङ्कर्षणानामरुद्र एकादश यूगस्त्रयक्षस्त्रीचिकं शूलमुत्तं यस्याङ्ग्रिकमलयुगलारुण विसधनगमणिषण्ठमण्डलेषो अहि पतयसखः एकान्तभक्तियोगेन अवनमन्तः स्वदानि परिस्फुरत्कुण्डलप्रभा मण्डितकण्डस्थलानि यति मनोहराणि प्रमुदितमनसः खलु विलोकयन्ति यस्यैव हि नागराजकुमार्य आशिष आसाना शार्वङ्कवलय विलसित विसध विपुलधवळ शुभकन् रुचिरभुज रजतस्तम्भेषु अगुरुचन्तनकुङ्कुमपङ्कानु लेपेनावलिम्पमानस्तदभिमर्शनोन्मतितहृदय महरध्वजावे सरुचिरललितः स्मितास्तधनुरागमधमुदितमध विघूर्णितारुणकरुणावलोक नयनवदनारविन्दं सुव्रेटं किल विलोकयन्ति स एव भगवानन्तोऽनन्त गुणार्णवादिदेवपुपसंहृत अमर्ष रोष वेगो लोकानां स्वस्तय आस्ते ध्यायमानसुरासुरोरघ सिद्धगन्तर्वविद्याधरमुनिगणैर् अनवरतमधमुतिथविकृत विह्वलोचन सुललितः मुकरिकामृतेन आभ्यायमानः स्वपार्षदविभुतयोतपतेन परिम्लान राघनव तुलसि कामोदमद्वासवेन माध्यन्मधुकरव्रातमधुर गीतश्रियं वै जयन्तीं स्वां वनमालां नीलवाषा एककुण्ठलो हलककुदीकृतसुभगसुन्दरबुज जो भगवान् माघेन्द्रो वारणेन्द्र इव काञ्चनीं कष उदारलीलो बिभर्ति ययेष एवम् अनुश्रुतो हृदयघ्रन्थिं सत्वरजस्तमोमयम् अन्तर्हृदयम् गत आसु निर्भिनद्धि तस्यानुभावान् भगवान् स्वयम्भुवो नारथः स कतुं पुरुणा सभायां ब्रह्मणः संश्लोकयामासम् उत्पत्तिस्थितिलयहेतवोऽस्य कल्प सत्त्वाद्या प्रकृतिगुणयदीक्षया सन् यद् ध्रूपं ध्रुवमकृतं यदेकमात्मन् नानादात्कतमुखवेद तस्य वर्तमात् मूर्तिं न पुरु कृपया भारसत्वं संशुद्धं सदसदितं विभाति यत्र यल्लीलामृगपतिराधतेनवत्या आतातुं स्वजनमनां सेवोधारवीर्यः यन्नामश्रुतं मनुकीर्तये ते कस्मात् आर्तो वायते पतितप्रलम्पना त्वा हन्त्यसभतिर्णामशेषम् अन्यं कंसेक्षाद्भगवत आश्रयेन्मो मोक्षोः मूर्ध्यन्यर्पितं मणुवत्सहस्र मूर्ध्नो भूकोळं सगिरे शरेत् आनन्त्यातनिमितविक्रमस्य भूम्नः को वीर्याणि अधिगणयेत् एवं प्रभावो भगवाननन्तो भगवानन्तो धुरन्तवीर्योरुगुणानुभावः मूले रसाया स्थित आत्मतन्त्रो यो लीलयाक्षां स्थितये बिभर्ते एतो ह्यबे नृभिरुप गन्तव्या गतयो यथा कर्म विनिर्मिता यतोपदेशन्ननुवर्णिता कामान् कामयमानैं यथावतिर्हि राजन्पुंस प्रवृत्तिलक्षणस्य धर्मस्य विपाकघतय उच्चावचाविषदृशा यथा प्रश्नं किमन्यत्कथया मयिति ये इति श्रीमद्भागवते महापुराणे पञ्चमस्तन्ते पूविवरविद्युपर्णनं नाम पञ्चविंशोऽध्यायः सर्वत्र गोपिका जीवनस्मरणं गोविन्द गोविन्द सद्गुरुनात्मकराजकी जय